चोदयित्री घनं सरस्वती केन् बि स्टाण्डर्ड् एनि डे एनि टैं घनं चोदयित्री सुनृतानागं सुनृतानां चोदयित्री चोदयित्री सुनृतानां चेदन्ती चेदन्ती सुनृतानां चोदयित्री चोदयित्री सुनृतानाञ्चेदन्ती सुनृतानां चेदन्ती चेदन्ती सुनृतानागं सुनृतानाञ्चेदन्ती सुमदिनागं सुमदीनां चेदन्ती सुनृतानागं सुनृतानां चेदन्ती सुमदीनां चेदन्ति सुमदिना गुं सुमदीनां चेदन्ति चेदन्ती सुमदीनां सुमदीनां दि सुमदीनां यज्ञं दधे दधे यज्ञं दधे सरस्वती सरस्वती दधे यज्ञै यज्ञं दधे सरस्वती दधे सरस्वती सरस्वती दधे दधे सरस्वती सरस्वती दी सरस्वती कन्या कन्या पावि रवि पावी रवि कन्या चित्रायुश्चित्रायु कन्या पावी रवि पावी रवि कन्या चित्रायुः कन्या चित्रायुश्चित्रायु कन्या कन्या चित्रायुः सरस्वती सरस्वती चित्रायु कन्या कन्या चित्रायु सरस्वती चित्रायु सरस्वती सरस्वती चित्रायुश्चित्रायुसरस्वती वीरपत्नी वीरपत्नी सरस्वती चित्रायुश्चित्रायुसरस्वती वीरपत्नी चित्रायुरिति चित्र आयुः सरस्वती वीरपत्नी सरस्वती सरस्वती वीरपत्नी सरस्वती सरस्वती धियम् वीरपत्नी धियन् धिय वीरपत्नी वीरपत्नी धियन्धाद्धा धिय वीरपत्नी वीरपत्नीयन्धाद वीरपत्नी दि वीरपत्नीयन्धाद्धाधियन्धियन्धाद दादिद ज्ञाभिरच्छिद्रमच्छिद्रङ्घ्नाभिर्घ्नाभिरच्छिद्रगं शरणगं शरणमच्छिद्रङ्घ्नाभिर्घ्नाभिरच्छिद्रगं शरणम् अच्छिद्र गं शरणगं शरणमच्छिद्रमच्छिद्रगं शरणगं सजोष सजोष शरण मच्छिद्रमच्छिद्रगं शरणगं सजोषाः शरणगं सजोषा सजोषा शरणगं शरणगं सजोषा दुराधर्षन् दुराधर्षगुं सजोषा शरणगं शरणगं सजोषा दुराधर्षम् सजोषा दुराधर्षं दुराधर्षगं सजोषा सजोषा दुराधर्षं गृणदे गृणदे दुराधर्शगं सजोषा सजोषा दुराधर्षं गृणदे सजोषा इति स जोषाः दुराधर्षं गृणदे गृणदे दुराधर्शन् दुराधर्शं गृणदे शर्म शर्म वृणदे दुराधर्शन् दुराधर्षं गृणदे शर्म दुराधर्ष मिदिदुः अधर्षम् गृणादे शर्म शर्म गृणदे गृणदे शर्मयगं सद्यगं सर्म गृणदे गृणदे शर्मयगं सद शर्मयगं सद्यगं सक्षर्म शर्मयगं सदयं स दिदि यगं वाक्यं चोदयित्री सुनृतानां चेदन्ती सुमदीनां यत्नधे सरस्वती पावीरविकन्या चित्रायुः सरस्वती वीरपत्नी दियन्दाद ज्ञाभिरच्छिद्रगं शरणगं सजोषा दुराधर्षं गृणदे शर्मयगं सद प्रणो देवी सरस्वती वाजेभिर्वाजिनीवदी देनाम वेत्र्यवद आनो दिवो बृहत् पर्वतादा सरस्वती यजदा गन्धुयज्ञम् हवन्देवी जुजुषाणा कृताची शक्मानो वाचमुशती शृणोतु श्रीवाग्देव्यै नमः ॐ